अथ पञ्चपञ्चाशः सर्गः उषित्वा रजनीम् तत्र राजपुत्रावरिन्दमौ महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति तेषाम् स्वस्त्ययनम् चैव महर्षिः स चकारः प्रस्थितान्प्रेक्ष्यतांश्चैव पिता पुत्रानि वौ ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः भरद्वाजो महातेजा रामम् सत्यपराक्रमम् गङ्गायमुनयोः सन्धिमासाद्यमनुजर्षभौ कालिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् अथासाद्य अथा कालिन्दीम् प्रतिस्रोतः समागताम् तस्यास्तीर्थे प्रचरितम् प्रकामं प्रेक्ष्य राघव तत्र यूयम् प्लवम् कृत्वा तरताम् शुमती नदी ततोऽन्यग्रोधमासाद्य महान्तम् हरितच्छदम् परीतम् बहुभिर्वृक्षैः श्यामम् सिद्धोपसेवितम् तस्मिन् सीताञ्जलिम् कृत्वा प्रयुञ्जीता शिशान् क्रियाम् समासाद्य च तम् प्रोशमात्रं ततो गत्वा नीलम् प्रेक्ष्य च सल्लकी बदरी मिश्रम् रम्यम् वंशैश्च यामुनैः गतस्य बहुशो मया रम्यो मार्दवयुक्तश्च दावैश्चैव विवर्जितः इति पन्थानमादिश्य महर्षिः सन्न्यवर्तत अभिवाद्य विनिवर्तितः उपावृत्ते मुनो तस्मिन् रामो लक्ष्मणमब्रवीत् कृतपुण्यास्म भद्रन्ते मुनिर्यन्नोऽनुकम्पते इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ सीतामेवाग्रतः कृत्वा कालिन्दीम् जग्मतुर्नदीम् अथासाद्य तु कालिन्दीम् शीघ्रस्रोतस्विनीम् नदीम् सद्यो नदी जलतितीर्षवः तौ काष्ठसङ्घाटमथो चक्रतुः सुमहाप्लवम् शुष्कैर्वंशैः समाकीर्नमुषीरैश्च समावृतम् ततो वैतथशाखाश्च जम्बुशाखाश्च वीर्यवान् चकारलक्ष्मणश्चित्त्वा सीतायाः सुखमासनम् तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ईषत्स लज्जमानाम् पार्श्वे तत्र च वसने भूषणानि च प्लवे कठिनकाजम् च रामश्चक्रे समाहितः आरोप्य सीताम् प्रथमम् सङ्घाटम् परिगृह्यतौ ततः प्रतेरतुर्यत्तौ प्रीतौ दशरथात्मजौ कालिन्दी मध्यमायाता सीता त्वेनामवन्दत स्वस्ति देवितरामित्वाम् पारयेन्मे पतिर्व्रतम् यक्ष्ये त्वाम् गोसहस्रेण सुराघटशतेन च स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वा कुपालिता कालिन्दी मथ सीता तु याचमाना कृताञ्जलिः तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी रतः प्लवेनाम् सुमतीम् शीघ्रगामूर्मिमालिनीम् तीरजैर्बहुभिर्वृक्षैः सन्तेरुर्यमुनाम् नदीम् ेतीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् श्यामम् न्यग्रोधमासे दुःशीतलम् हरितच्छदम् न्यग्रोधम् समुपागम्य वैदेही चाभ्यवन्दत नमस्तेऽस्तु महावृक्षपारयेन्मेपतिर्व्रतम् कौसल्याम् चैव पश्येम सुमित्राम् च यशस्विनी इति सीताञ्जलिम् कृत्वा पर्यगच्छन्मनस्विनी अवलोक्य ततः माया सीता मायाचन्तीमनिन्दिता दयिताम् च विधेयाम् च रामो लक्ष्मणमब्रवीत् सीतामादाय गच्छत्वमग्रतो भरतानुजा पृष्ठतोऽनुगमिष्यामि सायुधोऽद्विपदाम् वरा यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा तत्तत्प्रयच्छ वैदेह्या यत्रास्यारमते मनः एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् अदृष्टरूपाम् पश्यन्ती रामं पप्रच्छसाबला बला रमणीयान् बहुविधान् पादपान् कुसुमोत्करान् सीतावचन संरब्ध लक्ष्मणः विचित्रवालुकजलाम् हंससारसनादिताम् सा रेमे जनकराजस्य सुता प्रेक्ष्य क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मणौ बहून्मेध्यान्मृगान् हत्वा चेरतुर्यमुना वने विहृत्यते बर्हिण पूगनादिते शुभेवने वारणवानरायुते समम् नदीव प्रमुपेत्य सत्वरम् निवासमा जग्मुरदीनदर्शनाः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्या पंचपंचाश पंचाश